ॐ भ्रीं ऋतं गुणजे गुणेड्यः न का देव सकरु न भजे यतोह तस्मात्त्वमेव शरणदे bhavavid pari latanam so vipulam namana न च भाति के चे मम दे रागे कृते ऋतपथे त्वैरा कृष्ण मत्यामृतं तव पदम् मरणमि नाष तस्मा त्वमेव शरण मम देवन कृत्यं करोति कलुषम् कुहकान्तरि शान्तं शिवं सुविमलं तबलाम नाथन् यस्मादहं त्व jagadeek ga पिणे अवता वरिष्ठाय राम कृष्णा हे नमः ॐ नम श्री भगवते राम namah om namah sei nagavate Krishna Krishna